यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीं विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा अलोहं निशितं शस्त्रं शरीरपरिकर्तनं यो वेत्ति न तु प्रतिघातविदं द्विषः कक्षघ्नः शिशिरघ्नश्च महाकक्षेऽभिलोकसः चात्मानं यो रक्षति स न ना चक्षुर्वेत्ति नाचक्षुर्विन्दते न चक्षुर्विन्दते दिशः नाधृतिर्बुद्धिमाप्नोति बुद्ध्यस्वैवं प्रबोधितः अनाप्तैर्दत्तमादत्ते नरः शस्त्रमनोहजं श्वाविच्छरणमासाद्य प्रमुच्येत उताशनात् चरन्मार्गान् विजानाति नक्षत्रैर्विन्दते दिशः आत्मना एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः अनुशिक्ष्यानुगम्यैतान् कृत्वा चैव प्रदक्षिणं पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् निवृत्ते विदुरे चापि भीष्मे पौरजने तथा अजातशत्रुमासाद्य कुन्तीवचनमब्रवीत् क्षत्तायदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव त्वया च स तथेत्युक्तो जानीमो यदीदं शक्यमस्माभिर्ज्ञातुं न च स दोषवत् श्रोतुमिच्छामि तत्सर्वं संवादं तव च युधिष्ठिर उवाच गृहादग्निश्च बोद्धव्य इति मां विदुरब्रवीत् पन्थाश्च वो न विदितः धर्मदीहि धर्मदीः वसुधाम् वसुधां प्राप्स्यतीति च मेऽब्रवीत् विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया वैशंपायन उवाच अष्टमेहनिरोहिण्यां प्रयाताः पाल्गुणस्यते वारणावतमासाद्य ददृशुर्नागरं जनम् इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वि वाराणवतगमने चतुशद्याय